मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं 47 सवेन् वामनचरितं श्रीगणेशाय नमः मुद्गल उवाच वरं लध्वाससम्भोज्य वक्रतुण्डं च वामनः कश्यपं प्रणदो भूत्वा ययौ यज्ञं बलेरपि तं दृष्ट्वा सूर्यसङ्काशं वेदाध्ययनसंयुतं ह्रस्वाकृतिमुनिश्रेष्ठं विस्मिता मुनयो भवन। बलिरुद्धाय नत्वा पूजयामास्रिदः पप्र च किं ददेतुभ्यं मां तद्ब्रूहि महामुने तदशुक्रेण सर्वं तत् तस्य प्रयोजनं गणेशपूजनं चादौ न कृतं दुष्टबुद्धिना तेन विघ्नस्वरूपं च विष्णुरूपेण संस्थितम् अधुना यादृशं भावि तथा भवतु तादृशं बलेर्वचनमाकर्ण्य वामनःप्राकतं ततः देहित्रिपदरूपां मे भूमिं दैत्यपदे ददौ बलिर्महाभक्त्या तां भूमिं सादरो यथा तथा वामनदेवोऽपि गणेशं मनसा स्मरद विराड्रूपं तदो धृत्वा पादं शिक्षेपदेवपः एकेन सकलं स्वर्गं पादेनावृत्य सत्वरः द्वितीयेन स भूमिं वै सर्वामावृत्य वामनः उवाच दैत्यपं देहि तृतीयस्य स्थलं प्रभो बलिर्विस्मयमापन्नो भ्रान्तः भवद किञ्चिन्नो वाच तं तत्र किं तदो विष्णुः प्रकोपेन तं बबन्धमहासुरं विप्रश्यत्वमृणी जादो नरकं गच्छदैत्यप विष्णो वचनमाकर्ण्य बलिर्वै दुःखितोऽभवत नरकं विष्णुभक्ताय दत्ते वै विष्णुरद्भुतम् अहो मोहो महान् मे भूद्येन वेदविवर्जितम् कृदं कर्म विना पूज्यं पूज्य गणेशम विघ्ननायक तस्ेदम हिफल प्राप्त विष्णुभक्त अतस्तं अतस्त व्यामि यामी सर शिष्य प्रभु ये विचार्य मनसी ध्यान तुष्टाव ढुण्ढिं सर्वभाव सर्वभावसमन्वितः बलिरुवाच नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः सर्वाकाराय देवाय गम्या गम्यागम्यस्वरूपिणे mm. स्वानन्दपदये तुभ्यं हे रम्भाय नमो नमः नमो ब्रह्मपदे तुभ्यं गणाध्यक्षाय ते नमः सिद्धिबुद्धिपदे तुभ्यं नमो विश्वम्भरायते अपाराय नमस्तुभ्यं नाना मायामोह हरायैव गणेशाय नमो नमः सर्वान्तर्यामिणे तुभ्यं चिन्तामणिसुरूपिणे सतदं ब्रह्मभूताय नमस्ते जगदादये अन्धे मध्ये च सर्वत्र संस्थिताय नमो नमः आदिमध्यान्तहीनाय सिंहवाहाय ते नमः अपराद्धानसङ्ख्यातान्मदीयान् जगदीश्वर क्षन्द्वापाकिगणाधीशपतन्तं नरके च मां त्वन् मायामोहयोगेन मोहितोऽहं न संशयः तेन मत्सरभावेन त्वां त्यक्त्वा विष्णुमाश्रितः सकलं विघ्नसंयुक्तं जगदेदचराचरं शिवविष्णवादिभिः सार्धं तव मायाविमोहितं यदि त्वां शरणं धुण्ठे शिवविष्णवादयः प्रभो गच्छन्ति मोहीना वै निर्विघ्नास्ते भवन्ति अन्यधा भ्रष्टरूपास्ते पदहीना भवन्ति अतस्त्वं सर्वदेवानां धारको नात्रसंशयः सत्तारूपा महाविघ्नास्तेषां स्वामी भवान् मदः सर्वेषां स्थापकाश्चैव तथोद्धापनकारकाः अधुना त्वत्प्रसादेन बुद्धं गजानन अतस्त्वां शरणं यादो दीनो नाथश्च साम्प्रतं रक्ष रक्षगणाध्यक्षनरकान्मां दयानिधे त्वत्स्मृता चैव सिद्धिभाक जनः सर्वार्थसिद्धिभाक् एवं नानाविधैस्तोत्रैस्तुष्टावधनुजेश्वरः तदैवा काशजां वाणीं शुश्राव परमाद्भुता माभयम् गुरु कुरु रक्षामि शरणागतं नरकात्ये भयम् नास्ति मस्मृधे करणात् कदा त्वया कृतमिदं स्तोत्रं नरकस्य हरं भवेद् यः पठेच्छावयेद्वापि नरकतस्य नो भयं धर्मार्थकाममोक्षाणां साधनं प्रभविष्यति मद्भक्तिवर्धनं चैव बले भवति निश्चितं श्रुत्वाकाशभवां वाणीं बलिर्हृष्ठो बभूवः मेव गणपं चित्ते ध्यायंस्तत्रैव संस्थितः यदस्मिन्नन्तरे विघ्नो विष्णुं तत्याजवैयतः तदो बुद्धिप्रकाशश्च विष्णोर्जातस्तु तत्क्षणात् वामनो मनसा तत्र ध्यायति स्म प्रजापदे मम भक्तो बलिपूर्णस्तस्य प्राप्तं महद्भयं विप्रस्य ऋणमुग्रं यत्तेनायं नारकीभवेद् अहो मयादिमूर्खेण ना मम भक्तः प्रपीडितः कर्म बलिनां मत्सरान्मके न पूजितो गणाध्यक्षः फलहीनो भवत्तदः अधुना भक्तरक्षार्थं किं करोमि विचारदः गणेशं शरणं यामि तदसौख्यं भविष्यति एवं विचार्य देवेशो गणेशं हृदि सोऽस्मरद स्मृतिमात्रेण तस्याग्रे प्रकटो भूद्गजाननः तं दृष्ट्वा प्रणनामादौ पूजयामास भक्तिदभ सर्वे देवगणास्तत्र मुनयस्तमपूजयन् ये तस्मिन्नन्तरे तत्र बलिः प्रोवाच वामनं गणेशदर्शनेनैव वा प्राप्तबुद्धिर्महायशाः बलिरुवाच ब्रह्मन्देहि तृतीयं ते पादं शिरसि चासु मे देहोऽयं दानरूपेण मया दत्तो न संशयः तत्रुत्वा कर्षितो विष्णुस्तधेति स चकारः ब्राह्मणस्यर्ननिर्मुक्तं भक्तं कृत्वा च संस्थितः ततस्तं मुनिभिर्देह्वैः सखितोसौ जनार्दनः तुष्टावप्राञ्चलिं बद्ध्वा गणेशं सर्वसिद्धितं वामन उवाच नमस्ते गणनादाय सर्वेषां पदये नमः नानागणविभक्ताय जगत्कर्त्रे नमोऽस्तु दे विघ्नानां पदये तुभ्यं नमश्चन्द्रार्धारिणे त्रिनेत्राय नमस्तुभ्यं भक्तसंरक्षकाय च अमेय देवतवेदं रचितं जगद तव माया मायाविमोहेन मोहिदान् रक्षविघ्नप तव मायाप्रभावं च कोजानादि जानादिगजानन वयं योगिगणाश्चान्ये न तं वेत्तुं क्षमा कदा अधोपराधं जातं मे क्षन्तुमर्हसि मानदा तव भक्ता वयं नाथ देवदेवनमोऽस्तु ते बलित्वयं मदीयश्च भक्तः परमभाविकः मच्छ्रेष्ठत्वेन देवेश जातोत्सौ मत्सरान्विदः तेन वेदविरुद्धं च कर्म महाद्भुतं त्वां विना यज्ञमारेभ्ये फलहीनो भवत्क्रदुः अधुना मुनिभिर्देवैः सहितोखं गजानन प्रार्थयामि तदर्थं त्वां सफलं कुरु दानवं त्वं विना यकनामासि त्वया तदेव मान्यतां यादिवेदादिषु न संशयः वयं नायकसंयुक्ता वेदबाह्यं यदा प्रभो कुर्मश्चेद्वैपदभ्रष्टा क्रियन्ते च त्वया तदा यज्ञस्य फलसंयुक्तमदो भक्तं कुरु प्रभो पादस्त पदगणप से तमुप्य गशो जगाद वचनम हरि किंकमी पुरा वरदोहं बभूवते बभूवतेदीय हस्तो दैत्यम नरके पादम्यहम क्रोधसमुना मलह का येन मनसा वाचा दैत्यो मां शरणं गदः त्वं च प्रार्थयसे विष्णो वाञ्छितं च करोमि ते अधुना मां पुरस्कृत्य यज्ञं समापय तेनायं सकलानां च यज्ञानां फलमश्नुते अपराधस्य माहात्म्यं किञ्चित् पश्यतु केशव इन्द्रे निवृत्तेस्मिन्नेष इन्द्रः पश्चाद्भविष्यति पादाले स्थापयत्स्वैनं नात्रकार्या विचारणा अधुना फलहीनत्वं जनार्दनकृतं मया गणेशवचनं श्रुत्वा सर्वे हर्षसमन्विताः साधु साधु महाराज गजानन महाराजगजाननकृतं त्वया युत्युक्तस्तं पुरस्कृत्य यज्ञं चक्रे बलिस्ततः अन्तिमं भावयुक्तः सन्कृतकृत्यो भवद्यथा गणेशोऽन्तर्दधे तत्र देवाः स्वं स्वं पदं ययुः एवं वामनमाहात्म्यं कथितं ते प्रजापदे यशृणोदि नरो भक्त्या वाञ्छितं लभदे ध्रुवं श्रावयेतृणुयाद्वा यस्तस्य सर्वं न दुर्लभम् ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्री मन मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरि वामनचरत नाम ओम।